कृष्णयजुर्वेदतैतिरीयोपनिषद्भागे प्रथमः प्रश्नः प्रारम्भः षण्णा वित्रश्यरुणः शण् भवद्वर्यमा इन्द्रबृहस्पतिः षण् विष्णुरिक्रमः नमो ब्रह्मणे नमः त्वमेव प्रत्यक्षम् ब्रह्मादि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि मृदम् वदिष्यामि सत्यम् वदिष्यामि खन्मामवदु हद्वक्तारमवतु अवद माम्बदभक्तारम् ओम् शान्तिः षण्श्यं वरुणः छन्नाभौ षण् त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि अदम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवदो तद्वक्तारमवतु अवतु माम् अवदो वक्तारम् ओं शाम् निश्रान्धिश्रान्विक्षाम्याख्यास्यामः वर्णस्वरः मात्रापरम् सामसन्तानः इत्युक्तसीक्षाख्यायः सह नौ यशः सह नौ ब्रह्मवर्जनम् अथादः समूहिताया उपयुतम् व्याख्यास्यामः खण्डस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् कामः समूहिता इत्याचक्षते अथाधिलोकम् पृथिवीपो ओर्वरूपम् द्योरुत्तररूपम् आकाशः सन्धिः वायुःसन्धानम् इत्यधिलोकम् तथाधिज्योतिषम् अग्निः ओर्वरूपम् आपःसन्धि वैद्युतः सन्धानम् इत्यधिज्योतिषम् तथाधिविद्यम् आचार्यस्वो ओर्वरूपम् नन्देवास्युत्तररूपम् विद्यासन्धि प्रवचनगोसन्धानम् इत्यधिविद्यम् तथाभिप्रयम् आदापोऽर्वरूपम् पितोत्तररूपम् प्रजासन्धि प्रजनयोसन्धानम् इत्यधिप्रयम् उत्तरासनरुत्तररूपम् तवाक्सन्धिः यस्मासन्धानम् नित्यध्यात्मम् इदीमा महासगुहिताः य एवमेतामहासगुहिता व्याख्याता वेदा सन्धीयते प्रदयाशुभिः ब्रह्मकुलेनाद्येन सुवर्गेण लोकेन यच्छन्दसां शुभो अमृतस्य देवधारणो भूयासं, शरीरम् मे विजलषणम् इष्वा मे वित्तमावम् ब्रह्मणः कोशोऽसि मेधयापिहितः श्रुतम् मे गोपाय आवहम् दीवितम् माना कुर्वाणा क्षीरमात्मनः वासागुंसुमगावश्च अन्नपाणे पुदा ततो मे श्रियमावहसाम् सह पिमा इन्दु ब्रह्मचारिण स्वाहा रमायन्दु ब्रह्मचारिण स्वाहा नमा इन्दु ब्रह्मचारिण स्वाहा शमा इन्दुब्रह्मचारिण स्वाहा दशोजने सा नि स्वाहा श्रेयालवस्य तस्मिन् सहस्रदाघे निभगाहिद्वैमुधे स्वाहा तथाभारिन्द्रे देवम् माम् ब्रह्मचारिणः धातरान्दु सर्वतस्वाहाप्रमाबुद्धस्वारिवा यथास्राव्याहृदयः माहाजस्य प्रवेदयते मह इति ब्रह्मात्मा अङ्गान्यन्या देवताः भोरिवा अयम् लोकः उभरित्यन्तरिक्षम् सुभरित्यसौ लोकः महैत्यादित्यः आदित्येन वाव सर्वे लोकामहीयन्ते भूरिदिवाग्निः वैदि वायुः स्वरित्यादित्यः महैति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योदीगोषमहीयन्ते भोरिदिवारितः भुवैति सामाणि स्वरितिजोगोषि महैति ब्रह्मा ब्रह्मणा वाव सर्वे वेदामहीयन्ते भूरि वै प्राणः भुवैद्यनः इत्यन्नम् अन्नेन पाव सर्वे ये प्राणामहीयन्ते आवा एताश्च दुःखा चदस्रश्चतस्रोऽव्याहृदयः ताया वेदा सवेद ब्रह्मा सर्वे एष्मै देवा परिमावहन्ति स एषोन्तरहृदयाकाशः तस्मिन्मयम् पुरुषामनोमयः शांतो ैब्रह्मणि आप्नोतिस्वाराज्यम् आत्मादिमनसस्पतिम् आत्मदिश्च भवति आकाशशरीरम्ब्रह्म सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमर्थमृतम् इति प्राचीनयोग्योपा आस्मा दिव्यञ्जरिक्षिशोमान्तरधिशाः अग्निर्वायुरादित्यश्चन्द्रमानक्षत्राणि आपौषधयोवनस्पदय आकाश आत्मा इत्यधिभोधम् तथा ध्यात्मम् प्राण्यानोपानमुदानः समानः चक्षश्रब्रह्मनोपाक्रमकस्तावास्ति मज्जा एतदधिविधायनुवोचद आङ्कम् वा इदगो सर्वम् आङ्केनैवृणोतीति ओमिति ब्रह्म ओमिति इदगो सर्वम् ओमित्येतदनुकृतिः स्मवाप्यश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओं षोमिति शस्त्राणि शकंसन्ति ओमित्यध्वर्यप्रतिघलम् प्रति गृह्णाति ओमिति ब्रह्मा प्रसौति ओमित्यग्नहोत्रमनुजानाति कोमिदः प्रवक्षिन्नाह ब्रह्मो वा आप्नुवाणी ब्रह्मैवो वा आप्नोविवचने च सत्यञ्जस्वाध्याय प्रवचने च नमश्चस्वाध्याय प्रवचने च स्वाध्याय प्रवचने च स्वाध्याय प्रवचने प्रतितेश्च स्वाध्यायप्रवचने च मानुषम् च स्वाध्यायप्रवचने च प्रजा च स्वाध्यायप्रवचने च प्रजनश्च स्वाध्यायप्रवचने च प्रजादिश्च स्वाध्यायप्रवचने च सत्यमिति सत्यवचाराधीतरः इति पौरुदृष्टिः स्वाध्यायप्रवचने एवेदपस्तद्धिवः अहं वृक्षि वा कीर्तिः पृष्ठम् जरेरि वा ृतोक्षितः धर्मञ्चला स्वाध्यायान् प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजानन्दम् माव्यवक्षेत् श्रीः सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भोज्येन प्रमदितव्यम् स्वाध्यायप्रवचनाभ्यान्न प्रमदितव्यम् देवगुतिकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव नान्यमोद्यानि ब्रह्माणि तानि सेवितव्यानि नराणि कान्यस्माकमनुसीतानि कानि त्वया भास्यानि तेषाम् नियाधनेन प्रस्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् संविदाेयम् कथयजिते कर्मविचिकित्साभावृत्तविचिकित्साभा स्यात् हे तत्र ब्राह्मणा सम्मर्षिनः युक्ता आयुक्ताः अलोक्षाधर्मकामा स्युः तथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः तथाख्याख्यादेशु एतत्र ब्राह्मणाः सम्मर्शिनः युक्ता युक्ताः अरोक्षाधर्मकामा स्युः यथा चेतेषु वेदन्न तथा तेषु वत्तेताः एष देशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपाधितव्यम् एवमुचैतदुपास्यम् छन्वामित्रस्यं वरुणः श्रृण्भगत्पर्यमा श्र इन्द्रो बृहस्पतिः श्रन्धाविष्णुसुरक्रमः ्रह्मणे नमस्तेवाय त्वमेव प्रत्यक्षम् ब्रह्मादि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् प्रथमवादिशम् सत्यमवादिशम् तन्मामावीर तत्त्वकारमावीर आवीन्माम् आवीर त्वत्कारम् ओम् द्विश्यादिः षण्मित्रस्य वरुणः षण्णा भवद्वर्यमा षण् इन्द्रबृहस्पतिः षण् विष्णरक्रमः नमो ब्रह्मणे नमस्तेवाय त्वमेव प्रत्यक्षम् ब्रह्माधि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि कृतम् वदिष्यामि सत्यम् वदिष्यामि मामवक्तारमवदो अवतु माम् ओम् दुःशान्तिः इति कैतृयोपनिषद्भागे प्रथमः प्रश्नः